ब्रह्माण्डपुराणं मध्यभागम् अध्यायं ट्वेण्टि श्राद्धकल्पं बृहस्पतिरुवाच इत्येते दे देवा देवादेवानामपि देवताः सप्तस्वेदे स्थिता नित्यं स्थानेषु पितरो व्ययाः प्रजापतिसुदाख्येते सर्वेषां तु महात्मनाम् आज्ञोगणस्तु योगानामनुयोगविवर्धनः द्वितीयो देवतानां तु तृतीयो दानवादिनां शेषास्तु वर्णिनां ज्ञेया इति सर्वे प्रकीर्तिताः देवाश्चैतान्यजन् देवै सर्वज्ञानेषु अवस्थितान् आश्रमश्च यजन्त्येनांश्चत्वारस्तु यथाक्रमं सर्वे वर्णा यजन्त्येनांश्चत्वारस्तु यथागमं तथा सङ्गरजात्यश्च यजन्ति वै पितृं स्तुयो यजेद्भ्र्यापितरः प्रीणयन्ति ते पुष्टिकामस्य प्रजाकामस्य वा पुनः पुष्टिं प्रजां तुस्वर्गां च प्रयच्छन्ति पितामहाः देवकार्यादपि पिता तथा पितृकार्यं विशिष्यते देवतानां हि पितरः पूर्वमाप्यायनं स्मृता सा न हि योगगतिः सूक्ष्मापितॄणां ज्ञायते नरैः तपःसा हि प्रसिद्धेन किं पुनर्मांसचक्षुषा सर्वेषां राजदं पात्रमथवा रचतान्वितम् पावनं ह्युत्तमं प्रोक्तं देवानां पितृभिः सह येषां दास्यन्ति पिण्डां स्त्रीन् बान्धवा नामगोत्रतः भूमौकुशोत्तरायां च अपसव्यविधानतः सर्वत्र वर्तमानास्ते पिण्ठाः प्रीणन्ति वै यदाहारो भवेज्जन्तुराहारसोऽस्य जायते यथा गोष्ठे वै वत्सो विन्ददिमादरं तथा तं नामगोत्रं च मन्त्रं च दत्तमन्नं नयन्ति तम् अपि योनिषदं प्राप्तां तृप्तिस्ताननुगच्छति सत्ता ब्रह्मणः परमेष्टिनः पितॄणमादिसर्गे तु लोकानामक्षयार्थिनाम् इत्येदे पितरश्चैव लोका दुहितरस्तथा दौहित्रायजमानश्च प्रोक्ताश्चैव मयानख कीर्तिताः पितरस्ते वै तव पुत्र यथा क्रमं शय्युर्वच अहो दिव्यस्त्वयातात दृसर्गस्तु कीर्तितः लोका दुहितरश्चैव दोहित्राश्च श्रुतास्तथा दानानि सः शौचेन कीर्तितानि फलानि च अक्षय्यत्वं द्विजांश्चैव सर्वमे अद्य प्रभृति कर्तास्मि सर्वमेदथा तथं बृहस्पतिरुवाच इत्येतदङ्गिराः पूर्वं ऋषीणामुक्तवान् प्रभुः पृष्ठश्च संशयान् सर्वान् ऋषीणाः नृस्संसदि सत्रे दुविदे पूर्वम् तदा वर्ष सहस्रके तर्षसहस्र के ब्रह्मा सीदता प्रभु ग्र वर्षाण पंचाश्चता वै श्लोकाश्चात्रुरा गीता ऋषिवादी दीक्षितस्य पुरा सत्रे ब्रह्म परमात्मनः तत्रैव दत्तमन्याग्रं पितॄणामक्षयर्थिनां लोकानां च हितार्था परमेष्टिना सूद उवाच एवं बृहस्पतिः पूर्वं पृष्टः धीमदा प्रोवाच पितृसर्गं तु यश्चैव समुदाहृद इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पो नाम विंशतितमोऽध्यायः ॐ